श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथ नवमोऽध्यायः श्रीकृष्णका उखल्सी बान्धाजानां श्रीशु कुवाच एकदा गृहदाशिशु यशोदानन्दगेहिनी कर्मान्तर्नियुक्तासु निर्ममन्थ स्वयं दधे यानि यानि ह गीतानि तद्बालचरितानि च दधिर्निर्मन्थने काले स्मरन्ति तान् गायत क्षौमं वासपृथुकटितटे विभ्रतिसुत्रं पुत्रस्नेहनृतकुचयुगं जातकम्पं च शुभ्रू रज्ज्वाकर्षश्रमभुज चलत कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कवरविगलम् मालते नर्ममन्थ तां तन्निकाम आसाद्य मन्थन्तीं जननिं हरिः घृत्वा दधिमन्थानं न सेधत प्रीतिमावहन् तमङ्कमारूढम् अपायत्स्थनं स्नेहस्नुतं सस्मितमिक्षति मुखम् अतिप्तमिस्रे जेन सायया उचित्यमाने पयसि त्वधिस्थिते सञ्जातकोपस्फुरितारुणाधरं सन्दस्य दध्ये दधि मन्थभाजनं मित्वा मृषाश्रुशदस्मनारहो जघासहयङ्गवमन्तरं गतः उत्तार्यगोपी पय पुनः प्रवेश्य सन्दृश्य च दध्यमत्रकम् भग्नं विलोक्य स्वसुतस्य कर्म तज्जहासतं चापि तत्र पश्यते उलूखलाङ्घेरुपरि व्यवस्थितं मर्कायकायं ददतं शुचिस्थितं हैयं गवं चौर्यविशङ्कितैः क्षणं निरीक्ष पश्चास्तुतमागमच्छरये प्रसमेक्षसत्वर ततो वरुह्यापसससारभीतवत् गोप्यन्वधावन् यं यमापयोगिनां क्षमं प्रवेष्टुं तपसेरितं मनः अन्वञ्चमाना जननी बृहच्चलश्रोणीभराक्रान्तगतिसुमध्यमा यवे न विं संसृतकेशबन्धनचित्प्रसूनानुगति परामृशत पितागसं तं त्वं प्ररुदन्तमक्षे कसन्तमज्जन्म जन्म शिनेष्वपाणिनाम् उद्वेक्षमाणं भयविहलेक्षणं हस्ते गृहीत्वाभिषियन्तवागुरत त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सलाम् ये बुद्धं नाम् दाम्नात धीर्यकोविदाम् न चान्तर्न बहिर्यस्य न ना पूर्वं नापि चापरं पूर्वापरं बहिश्चान्तर्जगतो य जगत्ययः तं मत्वात्मजमव्यक्तं मर्तलिङ्गमथोक्षजं गोपिको लूखनेतां नाबन्ध प्राकृतं यथा तद्दामबध्यमानस्य स्वार्भकस्य कृतागस द्वङ्गुलो न अभूत्तेन सन्दधेन्यच्च गोपिका यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे तदपि द्व्यङ्गुलं न्यूनं यदि यदा दद्यबन्धनम् एवं स्वगेहदामाली यशोदा सन्दधत्यपि गोपीनां शुसं स्मस्म्यन्तीनां स्म्यन्ती विस्मिता भवत् मातुष्विन्न गात्रायां विस्रस्तङ्गम्बरस्रजः दृष्ट्वा परिश्रमं कृष्णः कृपयासीतशुबन्धने एवं सन्दर्शि सा जङ्गहरिणाभृत्यवश्यताम् स्ववसेनापि कृष्णेन यश्चेदं सेश्वरं वशे नेवं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रयाम् प्रसादं लेभिर्गोपीयत्तद्प्राप विमुक्तिदात् नायं सुखापो भगवान् देहिनां गोपिकासुतः ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह कृष्णस्तु गृहकृत्येषु व्याग्राया मातरि प्रभो अद्राक्षीजुनौ पूर्वं गुह्यकौ धनदात्मजौ पुरानारदशापेन वृक्षतां प्रापितौ मदात् नलकूबरमणिग्रीवाम् वितिख्यातौ श्रियान्वितौ श्रे श्रीमद्भागुते महापुराणे पारंशां सीतायां तसंस्कन्दे पूर्वार्धे गोपीप्रसादोनां नवमोऽध्यायः